उर्वश्युवाच अनावृताश्च सर्वाः स्म देवराजाभिनन्दना गुरुस्थानेन माम् वीरनियोक्तुम् त्वमिहर्हसि पूरोर्वंशे हि पुत्रा नप्तारो वा तपसा रमयन्त्यस्मान्न च तेषाम् व्यतिक्रमः तद्प्रसीदन मामार्ताम् विसर्जयितुमर्हसि हृच्छयेन च सन्तप्तम् भक्ताम् च भजमानदा अर्जुन उवाच शृणु सत्यम् वरारोहे यत्त्वाम् वक्ष्याम्यनिन्दिते शृण्वन्तु मे दिशश्चैव विदिशश्च स यथा कुन्ती च माद्री च शची चैव ममा नघे तथा तवंशजननि हि मेद्यगरीयसी गच्छ मूर्ध्ना प्रपन्नोऽस्मि पादौ ते वरवर्णिनी त्वं हि मे मातृवत्पूज्या रक्ष्योऽहम् पुत्रवैशम्पायनुवाच एवमुक्ता तु पार्थेन उर्वशी क्रोधमूर्च्छिता वेपन्ती भ्रुकुटीवक्रा शशापाथ धनञ्जयम् तव पित्राभ्यनुज्ञाताम् स्वयम् च गृहमागताम् यस्मान्माम्नाभिनन्देथाः कामबाणवशङ्गताम् तस्मात् त्वम् नर्तनः पार्थस्त्रीमध्ये मानवर्जितः अपुमानिति विख्यातः शण्ढवद्विचरिष्यसि एवम् दत्त्वार्जुने शापम् स्फुरदोष्ठीष्व सन्त्यथा पुनः ततोऽर्जुनस्त्वरमाणश्चित्रसेन मरिन्दमः सम्प्राप्य रजनी निवेदयामास तदा चित्रसेनाय पाण्डवः तत्र चैवम् यथा वृत्तम् शापम् चैव पुनः पुनः अवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः तत आनायतनयम् विविक्ते हरिवाहनः सान्त्वयित्वा शुभैर्वाक्यै स्मयमानोऽभ्यभाषता सुपुत्राद्यप्रथाता तत्त्वया पुत्रेण सत्तम ऋषयोऽपि हि धैर्येण जितावैते महाभुजा महाभुज यत्तु दत्तवती शापमुर्वशी तव मानद स चापि तेर्थकृत्तात साधकश्च भविष्यति अज्ञातवासोऽवस्तव्यो भवद्भिर्भूतलेन ख वर्षे क्षपयिष्यसि